Oh, oh, oh, oh. न ध्यायतो न जपतः स्याद्यस्या विधि पूर्वकम् एवमेव शिवासः लन आत्मा भवद्भक्ति सुधापान युवा पेषन् लोकया पलवधूसरः लब्धत्वत् सम्पदा भक्तिमदा स्यात्तयैव विजृम्भया साक्षाद्भवन् क्यां न सेध्यति जयन्ति अद्वितीया अपि प्रभु भक्त्यानन्दरसाप्लुताः त्वमेवात्मेष सर्वस्य सर्वश्चात्मनिरागवान् एते स्वभावसे जान जे जनः अनन्तान देवी प्रियतमा यथा अभियोक्त भक्ति भक्तिरस्तु मे भक्तिमहा ये शमभ्यागता विद्या ते तत्त्ववेदिनः आमूलात् वाग्लता सेयम् क्रमविस्फार तिसुधया सेता तदृसाठ्यफलास्तु मे शिवो भूत्वा यजे र भक्तै न शोधितम् न तपोनार्चा क्र स्म का प्रशस्यते शिव इत्येकशब्दस्य तेष्ठत तिष्ठतः सदा समस्तविषया स्वाहा ोप्यह शान्तीता स्वादुभक्ति सुधा बुधौ अलौकरसा स्वा सुस्थैः को नाम गण्यते भवद्भक्ति सु चित्रं निसर्गतो नाथ दुखबीजम् एद मनः त्वद्भक्तिरस सम् निश्रेयस महा भक्तिरस संसे निश्रय स महाफलम्